श्रीहरये नमः अथ दशमोऽध्यायः मैत्रेय उवाच प्रजापतेर्दुहितरं शिशुमारस्य वै द्रुवः उपये मे भ्रमिं नाम तत्सुतौ कल्पवत्सरो इलायामपि वयो पु्या महाबलः पुत्रमुत्कलनामानं यो क्षिध्रन्तम् अजीजनत् उत्तमस्त्वक्रुधोक्वाहो मृगयायां बलीयसां हतः पुण्यजनेनाद्रौ तन्मास्य गतिं गता श्रुत्वा कोपामर्शुचार्पितः जैत्रं स्यन्धनमस्ताय गतः पुण्यजनालयं गत्वो दीशं दिशं राजा रुद्रानुचरसेवितां दतशखिमवद्रोण्यां पुरीं गुह्यगसङ्कुलां दद्मौ शङ्गं बृहद् भागोर्कं दिशश्चानुदाधयन् येनोद्भिग्नदृशक्तः उबधेव महाभटाः असहन्तस्तन्निनादम् अभिभेदुरुदायुधाः सथानापतथो वीर उग्रतन्वा महारथः एकैकं युगपत् सर्वान् अहन्बाणैस्त्रिभिस्त्रिभिः देवैललाडलग्नैस्तैरिषुभिः सर्वये वहे मत्वा निरस्तमात्मानम् आशं शन्कर्म तस्य तत् तेऽपि चामुमं रुष्यन्तः पादस्पर्शमिभोरघाः शरैरविद्यन् युगपद्विगुणं प्रियचिकीर्षवः ततः परिगणिस्त्रिंशे प्रासशूलपरस्वधैः शक्तिरुष्टिभिर्भुषुण्डीभिं चित्रभाजै सरैरभिम् अभ्यवर्ष्यन् इच्छन्तस्तत् प्रतीकर्तुम् अयुथानि त्रयोदश औत्थानभाति स तथा सत्रवर्षेण भूरिणा नवुभादृश्य गच्छन् आसारेण यथा गिरिहेम् आहाकारस्तथैवासीत् सिद्धानान्धिविपश्यतां हतोयं मानवः न धत्सुयाधुधानेषो जयकासिथो मृधे उदधिष्ठद्रतस्तस्य नीहारादिवभास्करः धनुर्विष्पुर्जयन् दिव्यं द्विषतां खेदमुद्वहन् अस्त्रौ तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसां कायाना वि सुस्तिघ्मा गिरीनशनयो यथा भल्लै सञ्चित्यमानानां शिरोभिश्चारुकुण्डलैः ऊरुभिर्हेमतालाभैर्दोर्भिर्वलय वल्गुभिः हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः आस्तृदास्तारणभुवो रेजुर्वीरमनोहराः हतावसिष्ठायितरेरणाजिरा रक्षोगणाक्षत्रियवर्यसायकैः प्रायो विभृग्नावयवाविदुद्रुभो वा मृगेन्द्रविक्रीडितयूतपा अपश्यमान सतता महामृते कञ्चन मानवोत्तमः पुरीं दितृषन्नपीनाविसद्विषां न मायिनां वेतचिकीर्षितं जनः इति ब्रुवंश्चित्ररथस्वसारथिं यत्तपरेषां प्रतियोगसङ्कितः शुश्रावशब्दं जलदेरिवेरितम् नभस्वतो दिक्षु रजोन्वद्दृश्यत क्षणेनाश्चाधितं व्योम गणानीकेन सर्वतः विष्पुरद्धटिता दिक्षु त्रासयस्तनयित् नुना वभ्रशूरुतिरौघाश्रो पूयविण्मोत्रमेधसः निपेतुर्गगनाथस्य कभन्धान्यग्रधो न ग निपेतुः सर्वतोऽधिसं गता परिकनिस्त्रिंशत् मुसला शास्मवर्षिणः अहयोसनिश्वासा वमन्तोऽग्निं रुषाशिभिः अभ्यधावन् गचामद्ध सिंहव्याघ्रांश्च यूतसः समुद्रभूर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् आससादं महाग्राधक्कल्पान्तैव एवं विधानि अनेकानि त्रासन्नान्यमनस्विनां श्वसृजुस्तिग्मगतय आसुर्या माययासुराः ध्रुवे प्रत्युक्तामसुरैस्ता मायामधिदुस्तरां निशं मुनयवूचूँत्थानबाधे भगवान् तव शार्घधन्वा देवक्षिणोतु अववनदार्तिहरो विपक्षान् युन्नामधेयमभिदाय निशं यशाद्धा लोकोऽज्ञसा धरति तुस्तरमङ्घमृत्युम् इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराज के जय